श्रीमद्भागवत् महापुराणं दशं स्कन्ध श्रीभगवानुवाच मामा वैदर्भसूयेथा जाने त्वां मत्परायणां तद्वच श्रोतुकामेन श्लेक्ष्याचरितमङ्गले मुखं च प्रेमसंरभ्य स्फुरिताधरमीक्षितुं कटाक्षे पारुणापाङ्गं सुन्दरभृगुटीतटम् अयं हि परमो लाभो गृहेषु गृहमेधिनां जन्मीयते याम प्रिया भीरुभामिनी श्रीशुकुवाच सैवं भगवता ज्ञात्वा तत्परिहासोक्तिं प्रियत्यागभयं जहौ दभास ऋषुभं पुंसां विक्षन्ति भगवन्मुखम् सबीडहासरुचिरस्निग्धापाङ्गेन भारत रुक्मिल्युवाच नन्वेव मे तदरं बिन्दविलोचनाः यद्वै भवान् भगवतो सदृशी विभुम्नः क्वस्वे स्वे धिरतो धीरतो भगवान् क्वाहं गुणप्रकृतिरज्ञ गृहीतपादां सत्तं भयादिगुणेभ्य उरुक्रमान्त शेते समुद्र उपलम्भनमात्र आत्मा नित्यं कृन्द्रियगणैकृतविग्रहस्त्वं त्वस्यैव कैपपदं विदुतं तमोन्धं त्वत्पादपद्ममकरन्दजुषां मुनीनां वर्मा स्फुटं नृपशुभिन् सुबेन दुर्भिभाव्यं यस्माद् लौकिकमिवेहितमेश्वरस्य स्तवे हितमथो अनुये भवन्तम् निष्किञ्चनो ननुभवान्न यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः न त्वा विदन्त्य तेष्टो भवान् बलिभुजामपि ते भवान पितृव्यम् समस्त वै फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृष्णम् तेषां विभो समुचितो भवतः समाजः पुंसत्रियाश्चिरतयो सुखदुःखिनोर्न त्वं नश्च दण्डमुनिभिर्गतितां गतितानुभाव आत्मात्मदश्च जगतामि वृतोऽसि दृत्वा उदीरितकालवेग ध्वस्ताशिषोऽब्जभवनाकपतिं कुतोऽन्ये जाजम्भजस्तौ गदाग्रजयस्तु भूपान् विद्राभिसार्गनिदनेन जहर्ष मां त्वं सिंहो यथा स्वबलिमीशपशुंसभागं तेभ्यो भयाद्यदिदधिं शरणं प्रपन्नः यद्वान्थयानिप शिखामळयोन्य जायन्त नाहुषगयादय ऐकपत्यं राज्यं विसृज्य विविशुवनमम्बुजाक्षीदन्ति ते नु पदवीं त इहासिता किं कान्यं श्रयेत तव पादसरोजगन्धम् आघ्राय सन्मुखरितं जलतापवर्गं लक्ष्म्यालयं तविगणय गुणालयस्य मर्त्या सदोर्भयमर्तविवेक्तदेष्टि तं त्वानरूपम् अभजं जगतामधीशम् आत्मानमत्र च परत्र च कामपूरम् सान्मेतमाङ्घ्रिनम् स्थितिभिर्भ्रमन्त्यां यो वै भजन्तमुपयान्तनितापवर्गः तस्या सुरच्युतन्विपा भवतोपदिष्टाः स्त्रीणां गृहे सुखरघोषविडालभृत्या यत्कर्णमूलमरिकर्षणनोपया युष्वत्कथा मृडविरिञ्च सुगासुगीता त्वक्सं त्वक्ष्वं श्रुरो मनखके सपि नद्धमन्तम् आसासिदक्तमुदीं विकटं विटककपिं तपातम् जीवत्सवं भजति कान्तमतिर्विमूढा जाते पदाब्जमकरन्दमजिघ्रति स्त्रीम् अस्त्वम्बुजाक्षममते चरणानुरागम् आत्मान तस्य मयि चानतिरिक्तदृष्टे यर्हस्य वृद्धस्य उपात्तरज्योतिमात्रो मामीक्षसे तदुहना परमानुकम्पा नैवालीकमहं मन्ये वचस्ते मधुसूदन अम्बाया युहि प्राय कन्याया स्याद्रती क्वचिन् व्यूढायाश्चापि पुंश्चाल्यामनो नवं नवं बुधौ सतिं न बिभ्रयात्